गरुडपुराणम् प्रेतकाण्डम् धर्मकाण्डम् अध्यायम् इलवन् गरुड उवाच मानुषत्वम् लभेत्कस्मान् मृत्युमाप्नोति तत्कथम् म्रियदे कःसुरश्रेष्ठ देहमाश्रित्य कुत्रचिद इन्द्रियाणि कुतो यान्दि ह्यः स्पृश्यः स कथम् भवेद क्व कर्माणि कृतानीह कथम् भुङ्े प्रसर्पदि प्रसादम् कुरु मे मोहम् चेत्तुमर्हस्य शेषदः काश्यपोहम् सुरश्रेष्ठ विनदा यमलोकं कथं याङ्गी विष्णुलोकम् च मानवाः श्रीकृष्ण उवाच परस्य योषिदम् कृत्वा ब्रह्मस्वमपहृत्य च अरण्ये नर्जने देश्ये जायते ब्रह्मराक्षसः हीनजादौ प्रजायेत रत्नानामपहारकः यं यं काममभिध्यायेत् स तल्लिङ्गोऽभिजायते नैनं चिन्तन्ति शस्त्राणि नैनं दहति भावकः न चैनं क्लेदयन्त्यापो न शोषयदि मारुदः वाचक्षुर्नासिकाकर्णौ धृतमूत्रस्य सञ्चरः अण्डजातिकजन्तूनां चित्राण्येतानि सर्वशः आनाभेर्मूर्ध्वपर्यन्तमूर्ध्विद्राणि चाष्ठ वै सन्तः सुकृतिनोमर्त्या ऊर्ध्वच्छिरेण ऊर्ध्वच्छिद्रेण यान्ति वै मृदाहे वार्षिकं यावद्यथोक्तविधिना कुर्यात्सर्वाणि कर्माणि निर्धनोऽपि हि मानवः देहे यत्र वसे जन्तुस्तत्र भुङ्कृ शुभाशुभम् मनोवाकायजान्दोषांस्तथाम् भुङ्कृ खगेश्वर मृदः स सुखमाप्नोदि मायापाश्रैर्न बध्यते पाशबद्धो नरो यस्तु विकर्मनिरतो भवेद इति श्रीगारुडे महापुराणे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवाहे ऊर्ध्वाधोगधिज्ञापकोत्क्रमणद्वारनिरूपणं नामैकादशोऽध्यायः अध्याय अध्यायम् त्वल् श्रीकृष्ण उवाच एवम् ते कथितस्तार्क्ष्यजीवितस्य विनिर्णयः मानुषाणाम् हितार्थायप्रेतत्वविनिवृत्तये चतुरशीतिलक्षाणि चतुर्भेदाश्च जन्तवः अण्डजास्वेदजाश्चैव उद्भिज्जाश्च जरायुजाः एकविंशतिलक्षाणि अण्डजा परिकीर्तिताः स्वेदजाश्च तथा प्रोक्ता उद्भिज्जाश्च क्रमेण तु जरायुजास्तथा प्रोक्ता मनुष्याद्यास्तथा परे सर्वेषामेव जन्तूनाम् <Sess> ि दुर्लभम् पञ्चेन्द्रियनिधानत्वमः पुण्यैरवाप्यते ब्राह्मणाः क्षत्रिया वैश्या शूद्रास्तत्परजातयः रचकश्चर्मकारश्च नडो बुरुड एव च कैवर्त मेदभिलाश्च सप्तैदेह्यन्त्यजास्मृताः म्लेच्च तुम्बविभेदेन जातिभेदास्त्वनेकशः जन्तूनामेव जन्तूनामेव सर्वेषां भेदाश्चैव सहस्रशः आहारो मैथुनं निद्रा भयं क्रोधस्तथैव च सर्वेषामेव जन्तूनां विवेको दुर्लभः परः एकपादादिरूपेण देहभेदास्त्वनेकशः कृष्णसारो मृगो यत्र धर्मदशः स उच्यते दे। ब्रह्माद्या देवत सर्वस्तत्र सर्वशः भूतानाम् प्राणिनः श्रेष्ठा प्राणिनाम् मदिजीविनः मदिमत्सुनरा श्रेष्ठा नरेषु ब्राह्मणा स्मृताः मानुष्यम् यः समाः साध्य स्वर्गमे क्षैकसाधनं तयोर्नसाधयेदेहम् तेनात्मा वञ्जितोद्ध्रुवम् इच्छति शदि सहस्रं सहस्री लक्षमिहदे कर्तुं लक्षाधिपदि राज्यं राजापि सकलां धरां लब्धुम् चक्रधरोऽपि सुरत्वं सुरभावे सकलसुरपतिर्भवितुं सुरपदिरूर्ध्वगदित्वं तथापि न निवर्तते तृष्णा तृष्णया चाभिभूतस्तु नरकम् प्रतिपद्यते तृष्णामुक्तास्तु येके केचित्स्वर्गवासं लभन्ति ते आत्माधीनः पुमाम् लोके सुखी भवति निश्चितम् शब्दस्पर्श रूपं च रसो गन्धश्च तद्गुणाः तथा च विषयाधीनो दुःखी भवति निश्चितं कुरङ्गमदाङ्गपदङ्गभृङ्गमीना हदा पञ्चभिरेव च पञ्चभिरेव पञ्च एकप्रमादि स यसेवदे सेवदे पञ्चविरेव पञ्च पितृमातृमयो बाल्ये यौवने दयिदामयः पुत्रपौत्रमयश्चान्ते मूढो नात्ममय क्वचिद लोहदारुमयै पाश्यै बद्धो विमुच्यते पुत्रदारमय्यैपाशैर्नैव बद्धो विमुच्यते ये घकरो दिपानिफलं भुङ्े महाजनः भोक्तारो विप्रयुद्यन्दे कर्ता दोषेण लिप्यते कोपि मृत्युं न जयति बालो वृद्धो युवापि वा सुख दुःखादिको वापि पुनरायादियादि च सर्वेषां पश्यतामेव मृदः सर्वं परित्यजेद ये ग्रजायते जन्तुरेक एव प्रलीयते ये कोऽपि भुङ्े सुकृतमेक एव मृदं शरीरमुत्सृज्य काष्ठलोष्टसमङ्क्षितौ बान्धवा विमुखा यान्दिधर्मस्तमनुगच्छति गृहेष्वार्थानि वर्तन्ते श्मशानान्मित्रबान्धवाः शरीरं वह्निरा दत्ते सुकृतं दुष्कृतं व्रजेत शरीरं वह्निना दग्धं पुण्यं पापम् सहस्थितं शुभं वा यदि वा पापं भुङ्ग्रे सर्वत्र मानवः यदनस्तमिदे सूर्येण दत्तं धनमर्धिनां न जाने तस्य तद्वित्तं प्राधकस्य भविष्यति दी। रारडीदिधनं तस्य कोमे भर्ता भविष्यदि न दत्तं द्विज मुख्येभ्यः परोपकृतये तथा पूर्वजन्मकृतात् पुण्याद्यल्लब्धं बहुचाल्पकं तदीदृश्यं परिज्ञाय धर्मार्थे दीयते धनं धनेन धार्यते धर्मश्रद्धा भूदेन चेदशा श्रद्धा, श्रद्धा धर्मो नेसामुत्र च तद्भम् धर्मा च जायते ह्यर्थो धर्मात् कामोऽपि जायते धर्म एवापवर्गय धर्मं समाचरेत श्रद्धया साध्यते धर्मो बहुभिर्नार्थराशिभिः अकिञ्चना मुनय श्रद्धा श्रद्धावन्तो दिवं गदाः अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत असदित्युच्यते पक्षिन् प्रेत्यचेहन तत्फलम् इति श्रीगारूडे महापुराणे श्रीकृष्णगरुडसंवादे मृदस्य धर्ममात्रानुयायित्वनिरूपणं नाम द्वादशोऽध्यायः ओम् अध्यायम् 13 गरुड उवाच कर्मणाकेन देवेश्य प्रेतत्वं नैव जायते पृथिव्यां सर्वजन्तूनां तद्ब्रूहि परमेश्वर श्रीकृष्ण उवाच अध संक्षेपात्क्षया सङ्क्षेपात्क्षया हा दैहिकं स्वहस्तेनैव कर्तव्यमोक्षकामैस्तु मानवैः स्त्रीणामपि विशेषेण पञ्चवर्षाधिके शिष्यौ वृष्योः सर्गाधिकं कर्म विनिवृत्तये वृषोत्सर्गादृते नान्यत् किञ्चिदस्तिमहीतले जीवन्वापि मृदो वापि वृषोत्सर्गम् करोदि यः प्रदत्वं न भवेत्तस्य विना दानमखव्रतैः गरुड उवाच कस्मिन् काले वृषोत्सर्गं जीवन्वापि मृतोऽपि वा कुर्यासुरवरश्रेष्ठ ब्रूहि मे मधुसूदन किम् फलं तु भवेदन्ते क्रुद्धैः श्राद्धैस्तु षोडशैः श्रीकृष्ण उवाच अकृत्वा तु वृषोत्सर्गं कुरुदे पिण्डपातनं निष्फलम् एका दशाखे प्रेतस्य यस्य नोत्सृज्यते वृषः प्रेतत्वं सुस्तिरं तस्य दत्तैः श्राद्धशतैरपि गरुड उवाच सर्पाद्धिप्राप्तमृत्युनामग्निदाहादिनक्रिया जलेन शृङ्गिणा वापि शस्त्राद्यैर्म्रियते यदि असन्मृत्युमृतानाम् च कथम् शुद्धिर्भवत्प्रभो एतन्मे संशयम् देव चेत्तुमर्हस्य शेषतः कृष्ण उवाच षण्मासैर्ब्राह्मण शुद्ध्येद्युग्मे सार्धेतु बाहुजः सार्धमासेन वैश्यस्तु शूद्रो मासेन शुद्ध्यति दत्त्वा दानान्यशेषाणि सुदीर्थे म्रियते यदि ब्रह्मचारी शुजिर्भूत्वा न स यादिह दुर्गतिं कृत्वा यदि धर्मं समाचरेत यदित्वे मृत्युमाप्नोति स गच्छेद्ब्रह्म शाख्वम् विकर्मगुरुते यस्तु शिष्टाचारविवर्जितः वृषोत्सर्गादिकं कृत्वा न गच्छेद्यमशासनम् पुत्रो वा सोदरो वापि पौत्रो बन्धुजनस्तथा गोत्रिणश्चार्थभागी च मृदे कुर्याद्वृषोत्सवम् पुत्राभावेतुपत्नी स्यात् दौहित्रो दुःखितापि वा पुत्रेषु विद्यमानेषु वृषं नान्येन कारयेद् गरुड उवाच पुत्रा यस्य न विद्यन्ते नरा नार्यसुरेश्वर यदन्मे संशयम् देव चेतुमर्हस्य चेशदः श्रीकृष्ण उवाच अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च च तस्मात् केनाप्युपायेन पुत्रस्य जननं चरेद यानि कानि स्वयं दत्तानि मानवैः तानि तानि च सर्वाणि तूपतिष्ठन्ति चाग्रदः व्यञ्जनानि विचित्राणि भक्ष्यभोज्यानि यानि च स्वहस्तेन प्रदत्तानि देहान्ते चाक्षयं फलम् गोभूहिरण्यवासांसि भोजनानि पापदानि च यत्र यत्र वश्य जन्तुस्तत्र तत्रोपतिष्ठति यावत्स्वस्थम् शरीरम् हि तावद्धर्मम् समाचरेत अस्वस्थप्रेरितश्चान्यैर्ना किञ्चित्कर्तुमर्हसि जीवतोऽपि मृदस्येह न चौर्ध्वदैहिकं वायुभूतः क्षुधाविष्टो भ्रमदे च दिवानिशं कृमिक्रीडपदङ्गो वा जायते दे म्रियते पुनः असद्गर्भे भवेत्सोऽपि जादसद्यो विनश्यति यावत् स्वस्थमिदं शरीरमरुजं यावज्जरा यावच्चेन्द्रिय शाक्तिरप्रदिहदा यावत्क्षयो नायुषः आत्मश्रेयसि तावदेव कार्यप्रयत्नो महान् सन्दीप्ते भवने दुः कूपखननं इति श्रीगारूडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे वृषोसर्गदानधर्मपुत्रादिप्रशंसनं नाम त्रयो दशोऽध्यायः ओम् अध्यायं फोर्टीन् गरुड उवाच आर्तेन म्रियमाणेन यद्दत्तं तद्फलं वद वस्तेन दत्तेन विधिहीनेन वा विभो श्रीकृष्ण उवाच एका गौ स्वस्थचित्तस्य ह्यातुरस्य च घोषधं सहस्रं दत्तं वित्त विवर्जितम् मृदस्यैव पुनर्लक्षं विधिपूतं च तत्समं समायोगादेगा गौर्लक्षपुण्यदा पात्रदत्ते दत्ते कगश्रेष्ठ अहन्यहनिवर्धते दादुर्दानमपापापायज्ञानिनां च प्रतिग्रहः विशीतापहो मन्दवह्नि किम् दोषभाजनम् दातव्यम् प्रत्यहम् पात्रे निमित्तेषु विशेषदः नापात्रे विदुषा किञ्चिदात्मनः श्रेय इच्छता अपात्रे जातु गौर्दत्ता दातारं नरकं नयेद कुलैकविंशतियुतं गृहीतारं च पादयेद देहान्तरं परिप्राप्य स्वहस्तेन कृतं च यद धनं भूमिगतं यद्वत् स्वहस्तेन निवेशितं तद्वद्बलमवाप्नोदि ह्यहं वच्मि खगेश्वर अपुत्रोऽपि विशेषेण क्रियां चैवान्ध्वदौहिकीम् प्रकुर्यान्मोक्षकामश्च निर्धनश्च विशेषतः स्वल्पेनापि हि वित्तेन स्वयं हस्तेन यत्कृतम् अक्षयं यादि तत्सर्वं यथाज्यं च हुदाशने एका चैकस्य दादव्या सा विक्रीता वा दहत्या सप्तमं कुलम् तस्मात् सर्वं प्रकुर्वीद चञ्चले जीविते सति गृहीतदानपाधेयः या सुखं यादिमहाध्वनि अन्यथा क्लिश्यदे जन्धुपाधेयरहितः पथि एवं ज्ञात्वा खगश्रेष्ठवृषयज्ञं समाचरेद अकृत्वा म्रियदे यस्तु अपुत्रो नैव भुक्तिभाक अपुत्रोऽपि हि यः कुर्यात् सुखं यादि महापथे अग्निहोत्राद्भि अग्निहोत्रादिभिर्यज्ञैर्धानैश्च विविधैरपि न दां गतिमवाप्नोति यज्ञानां चैव सर्वेषां वृषयज्ञस्तथोत्तमः तस्मात् सर्वप्रयत्नेन वृषयज्ञं समाचरेद गरुड उवाच कथयस्वप्रसादेन क्षयाकं चौर्ध्वदैहिकं कस्मिन्काले तिद्धौ कस्यां विधिना केन तद्भवेद कृत्वा किं फलमाप्नोति येदन्मे वदसाम्प्रतं तत्प्रसादेन गोविन्दमुक्ते भवदिमानवः मानवः श्रीकृष्ण उवाच कार्तिकादिषु मासेषु याम्याय गदेरवौ शुक्लपक्षे तथा पक्षिन्द्वादस्यादिति द्ौ शुभे शुभे लग्ने मुहूर्ते वा शुचौ देश्ये समाहितः ब्राह्मणम् तु समाहूय विधिज्ञम् शुभलक्षणम् उपहोमैस्तभा कुर्या देहस्य शोधनम् पुण्ये भिजित् सुनक्षत्रे ग्रहान् देवान् समर्चयेद् होमम् कुर्याद्यथाशक्तिमन्त्रैश्च विविधैरपि ग्रहाणां स्थापनं कुर्यात् पूर्वम् चैव खगेश्वर मातॄणाम् पूजनम् कार्यं वसोर्धारां च पादयेत् व्निं संस्थाप्य तत्रैव पूर्णं होमम् तु कारयेत् शालग्रामं च संस्थाप्य वैष्णवम् श्राद्धमाचरेत् वृषम् सम्पूज तत्रैव वस्त्रालङ्कारभूषणैः चतस्रोवत् सतर्यश्च पूर्वम् समधिवासयेत् प्रदक्षिणम् तद कुर्यान् धोमान्ते च विसर्जनम् इमम् मन्त्रम् समुच्चार्य उत्तराभिमुखस्थितः धर्मत्वं वृषरूपेण ब्रह्मणा निर्मितः पुरा सर्गप्रभावान् मामुद्धरस्वभावार्णा वद अभिषिच्य शुभैर्मन्ध्रै पावनैर्विधिपूर्वकम् तन क्रीडन्ति मन्त्रेण वृक्षोत्सर्गं तु कारयेत् अभिषिञ्चेत् ततो नीलं रुद्रकुम्भोदपेनका नाभिमूले समास्ताय तदम्बुमूर्धनि न्यसेत् अन्नश्राद्धं ददकुर्या दद्याद्दानं द्विजोतमे उतके चैव गन्तव्यं जलं तत्र प्रदापयेत् यदिष्टं जीवतस्त्वासि तच्च दद्य स्वशक्तिदाह न्यूनं सम्पूर्णतां व्याधि वृषोत्सर्गे कृते सति सुतृप्तो दुस्तरे मार्गे मृदो यादिन संशयः यमलोकं न सदा सदा दानर दानरदानराः यावन्नदीयते जन्तो श्राद्धं चैका दशाहिकं स्वदत्तं परदत्तं वा नेहामुत्रोपतिष्ठति त्रयोदशा तथा सप्तपञ्च त्रीणि क्रमेण तु पददानानि कुर्वीद श्रद्धा भक्तिसमन्वितः तिलपात्राणि कुर्वीद सप्त पञ्चयद्धा क्रमम् ब्राह्मणान् भोजयेत् पश्चादेगां गां च प्रदापयेत् वृषं हि शन्नो देवीदि भेदोक्तविधिना ददः वत्सतरीभि परिणयनमाचरेत् वामे चक्रं पर्दातव्यं त्रिशूलं दक्षिणे तथा मूल्यं द्यद्याद्वृषस्यापि तं वृषं च विसर्जयेत् एकोदिष्टविधानेन स्वाहाकारेण बुद्धिमान् कुर्यादेकादशाखम् च द्वादशाखम् च यत्नदः स पिण्डी करणादर्वकुर्याच्छ्राद्धानि षोडश ब्राह्मणान् भोजयित्वा तु पददानानि दापयेत् कापो सोपरि संस्थाप्य ताम्रपात्रे तथाच्युदम् वस्त्रेणाचाद्य तत्रस्तमर्घं दद्याच्चुग्भैफलैः नाव मीक्षुमयीम् कृत्वा पट्टसूत्रेण वेष्ठयेद् कांस्यपात्रे घृतं स्थाप्य वैतरण्या निमित्तदः नावारोहणं कुर्यात् पूजयेत् गरुड्वजम् आत्मवित्तानुसारेण तच्च दानमनन्तकं भवसागरमग्नानां शोकतापार्तिदुःखीनां धर्मप्लवविहीनानां तारको हि जनार्दनः तिलालोकम् हिरण्यम् च कार्पासं लवणं तथा सप्तधान्यं श्रीदीर्गावो ह्ये कैकम् पावनं स्मृदम् तिलपात्राणि कुर्वेदशय्यादानं च दापयेद् दीनानाथविशिष्टेभ्यो दद्याचक्र्या च दक्षिणान् एवं ह्यः कुरुते तार्क्ष्य पुत्रवानप्यपुत्रवान् ससिद्धिं समवाप्नोति यथा ते ब्रह्मचारिणः नित्यं नैमित्तिकं कुर्यादि यावज्जीवति मानवः यः कश्चित् क्रियते धर्मस्तद्बलं च अक्षयं भवेद् तीर्थयात्राव्रतादीनां श्राद्धं संवत्सरस्य हि देवतानां गुरूणां च मादा पित्रोस्तथैव च पुण्यं देयं प्रयत्नेन प्रत्यगं वर्धते खग अस्मिन् यज्ञेः हि ह्यः कश्चित् प्रयच्छति तत्तस्य चाक्षयं सर्वं वेदिकायां यथा किल यथा पूज्यतमालोके यतयो ब्रह्मचारिणः तथैव प्रतिपूज्यन्ते लोके सर्वे नित्यशः वरदोकं सदा तस्य च दुः वक्त्रस्तथाहरः ते यान्ति परमां लोगानिधि सत्यं वजो मम उत्रष्टो वृषभो यत्र पिपत्यापो जलाशये श्रृङ्गेणा लिखदेवापि भूमिं नित्यम् प्रहर्षिदः पितॄणामन्नपानां च प्रभूतमुपतिष्ठति पौर्णमास्याममायां वा तिलपात्राणि दापयेद सङ्क्रान्तीनां सहस्राणि सूर्यपर्वशतानि च दत्त्वा यद्बलमाप्नोति तद्वै नीलविसर्जने वत्सतर्यप्रदातव्या ब्राह्मणेभ्यः पदानि च तिलपात्राणि देयानि शिवभक्तद्विजेषु च उमामहेश्वरं चैकं प्रदापयेद आतसी पुष्पसङ्काशं पेदवाससमच्युतं ये नमस्यन्ति गोविन्दं न तेषां प्रेदत्वान्मोक्षमिच्छन्तो ये करिष्यन्ति सत्क्रियाम् यास्यन्ति ते परां लोकानिति सत्यम् वजो मम ये दत्ते सर्वमाख्यातं मया चैवोर्ध्वदैहिकम् यच्छ्रुत्वा सर्वपापेभ्यो मुच्यदेनात्र संशयः श्रुत्वा माहात्म्य मधुलम् गरुडो हर्षमागतः मानुषाणां हितार्थाय पुनः पप्रच्छकेशवम् यदि श्रीगारूडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे गोदान वृक्षोत्सर्गदशदान भूरिदानादिनिरूपणं नाम चतुर्दशोऽध्यायः ओम् अध्यायम् फिफ्टीन् गरुड उवाच भगवन्ब्रूहि मे सर्वं यमलोकस्य निर्णयम् जन्तो प्रयाणमारभ्यमाहात्म्यम् वर्त्मविस्तरम् श्रीभगवानुवाच शृणुत्तार्श्य प्रवक्ष्यामि यममार्गस्य निर्णयम् प्रयाणकानि सर्वाणि नगराणि च षोडश षडशीतिसहस्राणि योजनानां प्रमाणतः यमलोकस्य चोर्ध्वम् वै अन्दरा मानुषस्य च कुकृतं दुष्कृतं वापि भुक्त्वा लोके यधार्जितं यथार्जितं कर्मयोगाद्यथा कश्चिद् व्याधिरुत्पद्यदेकग निमित्तमात्रं सर्वेषां कृतकर्मानुसारदः यस्य यो विहितो मृत्युःसदं ध्रुवमवाप्नुयाद कर्मयोगाद्यदादेहि मुञ्जत्यत्र निचं वपुः तदा भूमिगतं कुर्याद् गोमयेनोपलिप्यते तिलान्दर्भान्विकीर्याद मुखे स्वर्णं विनिक्षिपेत् तुलसी तुलसीं सन्निधौ कृत्वा शालग्रामशिलां तथा सेदु सामाधिसूक्तयिस्तु मरणमुक्तिदायकम् शलाकास्वर्णविक्षभैप्रदप्राणि गृहेषु च एका वक्त्रे तु दातव्याक्राणयुग्मे तथा पुनः अक्षणोश्च कर्णयोश्चैव द्वे, द्वे देये यथा क्रह्मन् अधलिङ्गे तथा चैका त्वेकां करयुग्मे च कण्ठे च तुलसीं च प्रदापयेद वस्त्रयुग्मं च दातव्यं कुङ्कुमैश्चाक्षतैर्यजेत पुष्पमालायुधम् कुर्या धन्यद्वारेण सन्नयेत् पुत्रस्तु बान्धवैः सार्धं विप्रस्तु पुरवासिभिः विदुप्रेतं स्वयं पुत्रस्कन्दमारोप्य बान्धवैः गत्वा श्मशानदेशे दुप्राग्मुखश्चोत्तरामुखम् अदग्धपूर्वाये अदग्धपूर्वा या भूमिश्चितां तत्रैव कारयेत् श्रीखण्डतुलसीकाष्ठसमित्पालाशसम्भृतां विकलेन्द्रियसङ्घादे चैतन्ये जडदां गदे प्रचलन्ति तद प्राणायाम्यायिर्निकटवर्धिभिः येकीभूतं जगत्पश्येद्दैवी बीभत्सं बीभत्सन्दारुणं रूपं प्रह्नैः कण्ठं समाश्रुतैः फेनमुद्गिरदे कोऽपिमुखं लालाकुलं भवेद् दुरात्मा दुरात्मानश्च ताड्यन्ते किङ्करैः पाशबन्धनैः सुखेन कृतिनस्तत्र मीयन्ते नाय्यनायकैः दुःखेन ना पापिनो यान्ति यममार्गे च दुर्गमे यमश्च दुर्भुजो भूत्वा शङ्खचक्रगदादिभृद पुण्यकर्मरतान् सम्यक् शुभान् आहूयपापि न सर्वान्यमोदण्डेन रज्जयेद प्रलयाम्बुद समप्रभः महिषस्थो दुराराध्यो विद्युत्ते जः समद्युदिः योजनत्रयविस्तारदेहो दिभीषणः लोहदण्डधरो भीमपाश्यपाणिर्दुराहृतिः वक्रनेत्रोदिभयदोदर्शनं याधिपापिनाम् अङ्गुष्टमात्रपुरुषो हाहाकुर्वन् कलेवराधं तदैव नियदे दूतैर्याम्याैर्वोक्षन् स्वकं गृहं निर्विचेष्टं शरीरं तु प्राणैर्मुक्तं जुगुप्सितम् अस्पृश्यम् जायते तूर्णं दुर्गन्धं सर्वनिन्दितं त्रिद्धावस्थाहि देहस्य कृमि विद्म स्म संज्ञिता को गर्वक्रियते तार्श्यक्षणविध्वंसिभिर्नरैः दानं वित्तादृता वाचकीर्तिधर्मौ तथायुषः परोपकरणं कायादसदसारमुद्धृतम् तस्यैवम् नीयमानस्य दूदा सन्दर्शयन्ती हि दर्शयन्दोभयम् तीव्रम् नरकाय पुनः पुनः शीघ्रम् प्रचल दुष्टात्मन् गदोऽसि सित्वं यमालये कुम्भिपागादिनरकांस्त्वाम् नेष्यामश्च मा चिरम् एवम् वाचस्तदा शृण्वन् बन्धूनाम् रुदिदम् तथा उच्चैःखेदि विलपनीयदे यमकिङ्करैः स्थाने श्राद्धं प्रकुर्वीद तथा चेकादशेखनी मृत्स्योत्प्रान्तिसमयात् षट्पिण्डान् क्रमशो दधेद मृदस्थाने तथा द्वारे चत्वरे तार्क्ष्यकारणाद विश्रामे काष्ठचयने तथा सञ्चयने च षट शृणु तत्कारणं तारुक्ष्य षट्पिण्ड परिकल्पने मृतस्थाने शवो नाम तेन नाम्ना प्रदीयते तेन दत्तेन तृप्यन्ति गृहवास्त्वद्धिदेवताः तेन भूमिर्भवेत्तुष्टा तद्धि ददधिष्ठा तृदेवता द्वारे दुपिण्डं देयम् च पान्धमित्यभिधायतु दत्तेन तेन प्रीणन्दिद्वारस्तागृहदेवताः चत्वरे केचरो नाम तमुद्दिश्य प्रदापयेत् पिशाचाराक्षसायक्षा ये चान्ये दिशिवासिनः तस्य होदव्यदेहस्य नैव योग्यत्वतारकाः चिदा पिण्डप्रभृतिदप्रेतत्वमुपजायते चितायां साधकं नाम वदन्त्ये केकगेश्वर केचित्तं प्रेदमेवाहुर्यथा कल्पविदो बुधाः तदादि तत्र, तत्र प्रेदनां प्रदीयते इत्येवं पञ्चभिः पिण्डैः शवस्याहुदियोग्यता अन्यथा चोकपादाय पूर्वोक्तास्ते भवन्ति हि उत्क्रामे प्रथमं पिण्डं तथा चार्धपये च चितायां तु तृतीयाम् चितायां तु तृतीयं पिण्डाश्च कल्पिताः विधादा प्रथमे पिण्डे द्वितीये गरुडध्वजः तृतीये यमदूताश्च प्रयोगपरिकीर्तितः दत्ते तृतीये पिण्डेऽस्मिन् देहदोषै प्रमुच्यते आधारभूतजीवश्च ज्वलनैर्ज्वालयेच्छिदाम् समृज्य चोपलिप्याथ उल्लिङ्क्योद्धृतवेदिकाम् अभिक्ष्योपसमाधाय वह्निम् तत्र विधानदः पुष्पाक्षतैश्च सम्पूज्य देवम् क्रव्यादः सञ्ज्ञकम् त्वम्भूतकृज्जगद्योने त्वं लोकपरिपालकः उपसंहारकस्तस्मादेनं स्वर्गं मृदं नय यदि क्रव्याधमभ्यर्च्य शरीराहुदिमाचरेत् अर्धदग्धे तथा देहे दद्यादाज्याहुदिं तदः लोमभ्यस्वोदि वाक्येन कुल्या दोमं यथा विधि चिदमारोप्य तं प्रेतं हुनेदाज्याहुतिं तदः यमायचान्तकायेति मृत्यवे ब्रह्मणे तथा जादवेदो मुखे देयायेकप्रेदमुखे तथा ऊर्ध्वं तुज्ज्वालयेद्वाह्ग्निं पूर्वभागे चिदां पुनः अस्मात्त्वमभिजातोऽसि त्वदयं जायतां पुनः असौ स्वर्गाय लोकाय स्वाफाज्वलधिपावकः एव माज्याहुदिं दत्त्वा तिलमिश्रां समन्तकां ततो दाहप्रकर्तव्यपुत्रेण किल निश्चितं रोदितव्यं तस्य सुखं भवेद दाहस्यानन्तरं तत्र कृत्वा सञ्चयनक्रियां प्रेदपिण्डम् प्रदद्याश्च दाहर्तिशमनम् खग तावद्भूता प्रदीक्षन्ते तम् प्रेदम् बान्धवार्धिनम् दाकस्यानन्तरम् कार्यम् पुत्रैः स्नानम् स चैलकम् तिलोदकम् तदो दद्यान्नामगोत्रेण तिष्ठतु ततो जनपदैः विष्णुर्विष्णुरिदिब्रूयात् गुणैः प्रेदमुदीरयेत जना सर्वे समास्तस्य गृहमागत्य सर्वशः द्वारस्य दक्षिणे भागे गोमयं गौर सर्षपान् निधाय वरुणं देवमन्दर्धाय स्ववेश्मनि भक्षयेन्निम्बपत्राणि कृतम् प्राश्यकृसं व्रजेद केचिद्दुग्धेन सिञ्चन्ति चिदास्थानम् खगेश्वर अश्रु पादम् न कुर्वीद दद्यादस्मै जलाञ्जलीन् श्लेष्माश्रु बान्धवैर्मुक्तम् प्रेदो भुङ्क्ते यदो वशः अदो न रोदितव्यम् कि क्रिया कार्या स्वशक्तितः दुग्धम् च मृण्मये पात्रे तोयम् दद्यादिनत्रयम् सूर्ये चास्तम् गदे तार्क्ष्यवलभ्याम् चत्वरोऽपि वा बद्धः सम् मूटहृदयो देहमिच्छन्कृदानुगः श्मशानम् चत्वरम् देहम् वीक्षण्याम्यैः गर्ते पिण्डा दशाकम् च दातव्याश्च दिने दिने जलाञ्जली प्रदातव्या प्रेदमुद्दिश्य नित्यशः तावद्वृद्धिश्च कर्तव्या यावत्पिण्डम् दशाखिकम् पुत्रेण हि क्रिया कार्या भार्यया तदभावतः तदभावे च शिष्येण तदभावे सहोदरः श्मशाने चान्यतीर्थे वा जलं पिण्डं च दाभयेद दा औद दा ओदनानि च सकृदूंश्च शाकमूलफलादिना प्रथमेहनी यदद्युत्तरेहनि दिनानि दश पिण्डांश्च कुर्वन्त्यत्र सुधादयः त्याहम् ते विभज्यन्ते चतुर्भागा खगेश्वर भागद्वयम् तु देहार्थम् प्रीदिदम् भूतपञ्चके तृतीयम् यमदूतानाम् चतुर्धम् चोपजीव्यति अहो रात्रैस्तु नवभिप्रेतो निष्पत्तिमाप्नुयात् जन्धोर्निष्पन्नदेहस्य दश मे बलवक्षुद्धा न विधिर्नैव मन्त्रश्च न स्वधावाहनाशिषः नाम गोत्रम् समुच्चार्य यद्दत्तम् तद्दशाहिकम् दग्धे देहे पुनर्देहमेवमुत्पद्य देखग प्रथमेहनि ह्यः पिण्डस्तेन मूर्धा प्रजायते द्वितीये चतृतीये हृदयम् भवेद चतुर्धेन भवेत् पृष्टं पञ्चमेनाभिरेव च षट् सप्तमे कडिगुह्य मृरू चाप्यष्टमे तथा कालुपादौ च नवमे दशमे ह्निक्षुद्धा भवेद देहप्राप्तः क्षुधा विष्टो गृहे द्वारे च तिष्ठति दशमे घनीयः दद्यादामिश्रेणदू यदो देहे समुत्पन्ने प्रोतोतीव क्षुधान्वितः अधस्त्वामिष बाह्य न क्षुधा तस्य न नश्यति एकादशे द्वादशाखे प्रेदो भुङ्े दिनद्वयं योषितपुरुषस्याभिप्रेदशब्दं समुच्चरेद दीपमन्नं जलं वस्त्रं यत्किञ्चिद्वस्तुतीयते प्रेदशब्देन तद्धेयं मृत्यानन्ददायकं त्रयोदशेहिनि सप्रेदो नीयते च महापदे पिण्डजं देहमाश्रित्य दिवनक्तं बुभुक्षिदः शीतोष्णशङ्कुक्रव्यादभग्नि मार्गस्तु पापिनां शुभा तृष्णात्मिका चैव सर्वसौम्यं कृदात्मनां मार्गे चैतानि दुःखानि असि पत्रवतान्वित् असिपत्रवनान्विदे शुक्पिपा सार्धितो नित्यं यमधृतायि प्रपी यमधृतायि प्रपीडितः अहन्यहनिवैप्रेतो योजनानां शतद्वयम् चत्वारिंशत्तथा सप्त अहोरात्रेण गच्छति गृहीतोऽयमपाशैश्च भेदि रुदिते तु सः स्वगृहम् तु परित्यज्य याम्यम् पुरमनुव्रजेत क्रमेण यादि सप्रेधपुरम् याम्यम् शुभा मार्गे पुरवराणि च याम्यं सौरिपुरं नगेन्द्रभवनम् गन्धर्वशैलागमौ क्रोञ्जं क्रूरपुरं विजित्रभवनम् बह्वापदम् दुःखदम् नानाक्रन्दपुरं सुगप्रभवनं रौद्रम् पयो वर्षणम् सीताढ्यं बहुधर्मभेदभवनं चाग्रदः त्रयो दशेह्नि सप्रेदो गृहीतोऽयमखिङ्गरैः तस्मिन्मार्गे व्रजत्येगो गृहीद इव मर्कडः तदवसव्रजन्मार्गे पुत्रपुत्रे दि च ब्रुवन् आकेधिक्रन्दे नित्यं कीदृशं मानुष्यं लभ्यते कस्मादिति ब्रूदे प्रसर्पदि म कदा पुण्ययोगेन मानुष्यं जन्म लभ्यते न तत्प्राप्य प्रदत्तं हि याच केभ्यः स्वकं धनं पराधीनं तदभवदि ब्रूदे सगद्गदः हा। किङ्करैपीड्यतेत्यर्थं स्मरदे पूर्वदैहिकम् सुखस्य दुःखस्य न कोऽपि दादापरो ददातीति कुबुद्धिरेषा पुरा कृतं कर्म सदैव भुज्यते देहिन् क्व चिन्निस्तरय त्वया कृतं मया दत्तं न हुदाशने तपो न तत्तं हिमशैलगह्वरे न गाङ्गमहो महाजलं देहिन् क्व उत्तर यत्त्वया कृतं न नित्यदानं न गावाह्निकं कृतं न वेददानं न च शास्त्रपुस्तकं पुराणदृष्टं न च सेवितोध्वा देहिन् क्वचिन्निस्तर यत्त्वया कृतं जलाशयो नैव कृतो हि निर्जले मनुष्यहेदो पशुपक्षिहेदवे गोतृप्तिहेतोर्नघृतं हि गोचरं देहिन् क्वजिन्नष्टर यत्त्वया कृतं मया न भुक्तं मासोपवसैर्न विशोषितं वपुश्चान्द्रायणैर्वा नियमैश्च संहतैः नारीशरीरम् बहु दुःखभाजनम् लब्धम् मया पूर्वकृतैर्विकर्मभिः उक्तानि वाच्यानि मया नराणामदशृणुष्व वहितोऽपि पक्षिन् स्त्रीणाम् शरीरम् प्रतिलभ्य देही ब्रवीदि कृतानि पूर्वम् इति श्रीगरुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मातृप्रेतकल्पे श्रीकृष्णगरुडसंवादे यमलोकविस्तार तन्मात्म तद्ध्याननिरूपणं नाम पञ्चदशोऽध्यायः ओम्